एवम् चतुर्दश जगन्मयताम् गतस्य पातालमीश तव पादतलम् वदन्ति पादोर्ध्वदेशमपि देवरसातलम् ते खलु महातलमद्भुतात्मन् जङ्घे तलातलमथो च जानो किञ्चोरुभागयुगलम् शोणीतलम् जगन्मम्बरमङ्गनाभिर्वृक्षश्च शक्रनिलयस्तव चक्रपाणे ग्रीवामहस्तव मुखम् च जनस्तपस्तु फालम् शिरस्तव समस्तमयस्य सत्यम् एवम् जगन्मयतनो जगदाश्रितैरप्यन्यैर्निबद्धव पुषे भगवन्नमस्ते त्वद्ब्रह्म रन्ध्र पदमीश्वर विश्वकन्द छन्दांसि केशवघनास्तव केशपाशाः उल्लासि चिल्लियुगलम् लोभत्रपे च भगवन्नधरोत्तरोष्ठौ तारागणश्च रदनाश्चमनश्च दंष्ट्रा मायाविलासहसितम् समीरो जिह्वाजलम् वचनमीशकुन्तपङ्क्तिः सिद्धादयः स्वरगणा मुखरन्द्रमग्नेर्देवा भुजास्तनयुगम् तव धर्म पृष्ठम् त्वधर्म इह देव मनः सुदांशुरव्यक्तमेव हृदयाम्बुजमम् बुजाक्षा कुक्षिः समुद्रनिवहा वसनम् तु सन्ध्ये शेपः प्रजापतिरसौ वृषणौ मित्रः क्षोणीस्थलम् मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्र सैन्धवमुखा तु कालः विप्रादि विप्रादिवर्णभवनम् वदनाब्जबाहू चारूरु युग्मचरणम् करुणाम् बुधेते संसारचक्र मयि चक्रधर क्रियास्ते वीर्यम् महासुरगणोऽस्थिकुलानि शैलाः नाड्यः ईतृज्जगन्मयवपुस्तव कर्मावसानसमये कर्मा स्मरणीयमाहुः तस्यांतरात्मवपुषे विमलात्मनेते ते वातालयाधिपनमोऽस्तु निरुन्धिरोगान्